अथर्ग्वेदे तृतीयाष्टके षष्ठोऽध्यायः ओवा त्वामिन्द्रवज्रिन्नत्र विश्वे देवासस्वहवास उमाः महामुभे रोदसी वृद्धवृष्मन्निरे कविद्वृणते वृत्रहत्ये अवा सृजन्तजिव्रयो न देवाभुवः सम्राळीन्द्रसत्ययोनिः अहं नहिम्परिषया नवर्णः प्रवर्तनीररतो विश्वधेनाः अतष्णुवन्तम् वियतमबुद्ध्यमबुध्यमानम् सुषुपाणविन्द्र सप्त प्रतिप्रवत आशयाः नवहिम्बज्रेण विरिणा अपर्वन् अक्षोदयच्छव साक्षामबुद्धम् वार्णवातस्तपिषेभिरिन्द्राः दृह्णान्योभ्रादुषमानवो यो वानत्ककुभः पर्वतानाम् अभिप्रतदुर्जनयो न गर्भम् रसा आदिव प्रयुः साकमद्रयः अतर्प्रयो विसृत उब्ज ऊर्मेन् त्वम् वृताम् अरिणा इन्द्रसिन्धून् त्वम् महेमहनिम् अरमयो नमसैजः सुतरणाङ्गतृणोरिन्द्रसिन्धून प्राग्रुवोनभन्वो ओ, ओ, ओ न भक्वा अध्वस्रा अपिन्वद्युवधेरृतज्ञाः धन्वान्यज्राङ्गणत्कृषाणाङ्गजोगिन्द्रस्तर्यो ओदं सुपत्नेः पूर्विरुषसः शरदश्च कूर्ता वृत्रञ्जघन्वाङ्गसृजद्विसिन्धून् ष्ठिता ऋणद्वद्बधानाः सीरा इन्द्रस्रवितवे पृथिव्या वम्रेभिः पुत्रभग्रुवो अदानन्निवेशनाद्धरिवादभर्था या अन्धोऽक्षदहि माददानो निर्भोनुखच्छित्समरन्तपर्व प्र ते पूर्वाणि कर्णानि विप्राविद्वाङ् आह विदुषेकरांसे यथा आयथा यथा वृष्ण्या आ निःस्वगूर्तापाहंसिराजन्नर्याविवेशीः नो श्रुत इन्द्र नो गृणान इषम् चरित्रे नद्यो न पीपेः अकारिते हरिवो ब्रह्मणव्यम् ध्या स्यामरथ्यः सदासाः आन इन्द्रो दूरादान आसादभीष्टिकृतभसेया सदुग्रह ओधिष्ठेभिर्नृपतिर्वज्रबाहुः सङ्गे समत्सु दुर्बणिः प्रतन्यो न आन इन्द्रो हरिभिर्यात्वच्छा आर्वाजीलोमसे राधसे च तिष्ठा आति मञ्जि यज्ञमनुलो बाजसातौ इमै यज्ञम् त्वमस्माकमिन्द्रपुरोदधत्सनिष्यसि क्रतुम् नः श्वनीव वज्रिंस नजेधनाः नान्त्वया आ वयमर्य आजिञ्जयेम उषन्नुषुणः सुमनाः उपाके सोमस्य नु सुषुतस्य स्वधावः पा इन्द्रप्रतिभृतस्य मध्वः समन्धसाममदः पृष्ठ्येन वियोरदप्सऋषिभिर्नवेभिर्वृक्षो न पक्वशृण्यो न चेताः मर्यो न योषामभिमन्यमानोच्छाः विवक्मि पुरुहूतमिन्द्रम् गिरिर्नयः स्वतवाङ्ग्रम इन्द्रः सना देव सहसे जात उग्रः आदर्ता वज्रंस्तरन्न भीम उद्देपोषम् वसुनान्विलष्टम् नयस्य वर्ता जनुषान्वस्ति नराधस आमरीता मघस्य उद्वावृषाणस्तविषीम उग्रास्मभ्यम् दद्धि पुरुहूतरायः ीक्षे राजा क्षयस्य च ऋषणीनामुतौ रजमपवर्तासि गो प्रहावान् वस्वो राशिमभिनेतासि भूरिम् कया तच्छृण्षच्याशतिष्ठो यया आकृणोति मुहुवाचि दृष्वः मा नोमर्धीराफलादर्धिरन्नः प्रदाशु शेदातपे भूरि यत्ते नव्ये एतेष्णेशस्ते अस्मिन्त उक्थे प्रब्रवाम वयमिन्द्र स्तुवन्ताः नोष्टुत इन्द्र नो वृणान इषम् चरित्रे नद्यो रमीपे अकारिते हरिवो ब्रह्मणव्यम् धियास्यामरध्यः सदासाः आयात्पिन्द्रो वस उप न इह स्तु तस्य धमानस्तु शूराः वावृधानस्तविशीर्यस्य पूर्वीर्द्यौर्नक्षत्रमभिभोति पुष्यात् तस्येदिहस्तपथवृष्ण्यानि तु विद्युम्नस्य तु विराधसोन्द्र यस्य क्रतुर्विदथ्यो आयात्विन्द्रो अिव मक्षो समुद्रा दृत वा पुरे ईशात् स्वर्णराधवसेनो मरुत्वान्परावतो अभासतना धृतस्य राजो बृहतो ईशे तमुष्टवामविदथेष्विन्द्रम् यो वायुना जयति गोमते सुप्रधृष्णुजा नयति वस्यो अच्छा उपयो नमो नमसिस्तभायन्नियत्ति वाचम् जनयन्यदध्यै रञ्जसारः पुरुवार उक्तैरेन्द्रम् गृह्ण्वेतसदने शोरा दिशायति धिषण्यन्तः सरण्यान्सदन्तो अद्रिमौषिजस्य गोहे आदुरोषाः पास्त्यस्य महान् संवरणेषु सत्रायदे इम् भार्वरस्य कृष्णस्य शक्तिसुष्मस्तु वते भराय गुहाय विदद्गौरस्य कपयस्य गोहे य भद्राते हस्ता सुकृतोतपाणे प्रयन्ता प्रयंतारा भते राध इन्द्र का ते निशक्तिः किमुनो ममत्सि किन्नो दु दुहर्षसेदा तवा ऊ एवावस्व इन्द्रः सत्यः सम्राड्ढन्तावृत्रम् वरिवः पूरवे एकः पुरुष्टुतक्रत्वा नःशक्दिराजो भक्षीयते वसो दैव्यस्य नोष्टुत इन्द्र नो गृणान इषम् जरित्रे नद्यो ओनपीपेः अकारिते हरिवो ब्रह्मणम् यन् स्याम रथ्यः सदासाः यन्न इन्द्रो जुजुषे यच्छमष्टि तन्नो महान् करति शुष्म्याचित् ब्रह्म स्तोमम् मघवासोममुग्धा यो अश्मानम् श्रवसा वृषा वृषन्ति चतुरश्रिमस्यन्नुग्रो बाहुभ्या नृतमश्यते एवान् श्रिये परुष्णे मुषमाणवर्णा यस्याः पर्वाणि सख्याय विव्ये यो देवो देवतमो जायमानो महोवाजेभिमहद्भिश्च सुष्मै दधा आ नो जाममे नरेत विश्वारोधा हंसि प्रवतश्च पूर्वीर्दौरदृश्वाजनिमन्द्रे च तक्षाः आमातराभरति शुष्मागोर्न्रवन् परिज्मन्नोनुवन्तवाताः तातूत इन्द्रमहतो महानिविश्वेष्वित्सवनेषु प्रवाच्याः यच्छोरधृष्णो पातु ते ए सत्या तु विनम् न विश्वाः प्रते रवशिस ते कृष्ण ऊर्ध्नाः अथा आह जवसा चक्रमन्ता अत्राहते हरिवस्ता उदे वीरवोऽभिरिन्द्रस्तवन्तस्वसाहारः यत्सेवनुप्रमुचो बद्वधाना दीर्घामनुप्रसिंस्यन्त यद्येये पीडे अंशुर्मद्योरसिन्धुरात्पाशमीशमानस्य शक्तिः अस्मद्यक्षुषु चारस्य जम्या आशुर्नरश्मिन्तुव्योजसङ्गोः अस्मे वरिशिष्ठा कृणहिज्येष्ठा नृम्णानि सत्रासहुरे सहांसे अस्मभ्यम् वृत्रा सुहनानिरन्धिजिवधर्मनुषो मर्त्यस्य अस्माकमिच्छुशृणुभि त्वमिन्दास्मभ्यम् चित्राम् उपमाहिवा अस्मभ्यम् विश्वा इष नः पुरन्धीरस्माकम् सुमखवन् बोधि गोधाः नोष्टुत इन्द्र नो कृषम् नद्यो ॐ न अकारिते हरिवो ब्रह्मणव्यम् धियास्यामरथ्यः सदासाः कथा महामवृधत्कस्य होतुर्यज्ञञ्जुषाणो पिबन्नुषानो जुषमाणो अन्धो वक्षविष्पशुतनाय को अस्य वीरस्य धमादमापसमानम् शसुमतिभिः को अस्य कदस्य चित्रम् चिकिते कदूते वृथे भुवच्छसमानस्य यज्योः कथा शृणोति हूयमानमिन्द्रः कथा शृण्वन्नवसामस्य वेद का अस्य पूर्वीरुपमातयोः कथैनमाहुः पपुलिञ्जरित्रे कथास बालः शमानो अस्य न शदभिद्रविनन्दीध्यानः देवोपपन्नवे एदामरतानान्नमोरृद्वामभियजुजोषत् कथाकरस्या उषसोऽष्टौ देवो मर्तस्य सख्यम् जुजोष कथाकथस्य सख्यम् सखिभ्यो ये अस्मिन् कामम् सुयुजन्तरस्रे किमादमत्रम् सख्यम् सखिभ्यः ऋतस्य हि शुरुधः सन्ति पूर्वेरतस्य धीतिरवृथिलानि हन्ति ऋतस्य श्लोको ऋताय वृथे बहुले गभीरे धृताय धेनोपरमे दुहाते नोष्टुत इन्द्र नो गृणान इषम् जरित्रे नद्यो नीहिपेः हरिवो ब्रह्मणम् सदासाः कातु सोनमिन्द्रमर्वाचीनम् राधस अपवर्तते रतिर्हि वीरो गृणते वसो निषगोपतिर्निश्चितान्नो जना सह सकृत्रात्येहं यः स एड्यः स सुष्ठुत इन्द्रः सत्यरादाः स यामन्नामघभामर्त्या ब्रह्मण्यते सुष्मये परिबोधात् तमिन्नरो विह्वयन्ते समेकेरिक्वाम् स स्तन्वः कृण्वतत्राम् मिथो यत्यागमुभया आसो अग्मन्नरस्तोकस्य स नजस्य सातौ कृतोऽयम् दीक्षितयो योग उग्रासुषाणासो अमिथो अर्णसातौ सञ्यद्विषोपवृत्रन्त युध्मा आदिन्येम इन्द्रयन्ते अभीके आदिद्धरेम इन्द्रियै यजन्त आदित्पत्तिः पुरोलाश्रयिच्यात् आदित्सो मो विपरिचाद सुीनादिज्युजोषवृषभै यजध्यै कृणोत्यस्मै सुनोति सीचीने न मनसाभि वेनन्तमित्सखा य इन्द्रायशुनवत्सोमद्यत्पत्तेरुतभृजातिधानाः प्रतिमरायोचसायम् तस्मिन् दधद्भृषणम् शुष्ममिन्द्राः यदा स मर्यम् येदृघा आवादीर्घञ्यदायिमभ्यक्षदर्यः अचिक्रदद्भृषणम् पद्यच्छादुरोण आनिशितम् सोमसुद्भेः भूयसा वस्नमज भूयसाकनी यौनारिरे चेद् दीनादक्षाविदुहन्त्रिप्रवाणम् क इमम् दशभिर्ममेन्द्रम् क्रीणातिधेनुभिः यदा वृत्राणिजङ्घनदथीनम् मे पुनर्ददत् नोष्टुत इन्द्र नो गृणान इषञ्जरित्रे नद्यो नीपेः अकारिते हरिवो ब्रह्मणम् यन् धियास्यामरथ्यः को अद्य नर्यो देवका म उषन्निन्द्रस्य सख्यञ्जुजोष को, आ आ को, ना आ आ को वा को आ महेव सेवार्यायसनिधे अग्नौ सुतसो मयीट्टे को नामवचसा सोम्यायमनायुर्वा भवति वस्त उस्राः क इन्द्रस्य युज्यङ्कस्य कीर्तङ्गो भ्रातृन्दष्टिकवयेक ऊती को देवानामवो अद्यावृणीतेक आदित्यार्मञ्ज्योतिरीट्टे दि कस्याश्विनाविन्द्रो अग्निः सु तस्यांशोः पिबन्ति मनसा विवेदम् तस्मा अग्निर्भारतः शर्मयम् सद्यो पश्यात् शौर्यमुच्चलन्तम् य इन्द्राय सुनवामेत्याह नरे निर्याय नृतमाय नृणाम् न तन्दिनन्ति बहवो इन्द्रे एव नायुः प्रियः सोमे सुप्राव्यः प्राशुराळे च वीरः सुष्वेः पक्तिम् गृणुते के पदेन्द्राः नासुष्वेरापिन ना सखानजामिर्दुष्प्राव्यो ना वहन्ते दवाचः न देवताः पणिनाः सक्षणेन्द्रो सुन्दता सुपाः सङ्गृणीते आस्यते दक्षिदति हन्ति नग्नम् विसुष्पजे पक्तजे भक्तजे केवलोऽभूत् इन्द्रम् परे परे मध्यमा स इन्द्रम् यान्तो वसिता स इन्द्रम् इन्द्रम् क्षियन्त उत युध्यमाना इन्द्रम् नरो वाजयन्तो हवन्ते अहम् मनुरभवम् सूर्यश्चाहङ्कक्षी वास्मि अभिप्राः अहङ्कुत्समार्जुने यन्द्रिञ्जे अहङ्कविरुशना पश्यताम अहम् भूमिमददामार्यायाहम् वृष्टिन्दाशुशेमत्याय अहमपो अनयम् वा वशाना मम देवासो अनुकेतमायन्न अहम् पुरो मन्दसारो व्यैरन्नवसाकन्नपतेः शम्बरस्य शततमम् वेश्यम् सर्वदा तादिवो दासमति चैग्ञ्जतामम् प्रसुधविभ्यो मरुतो विरस्तु प्रश्येन श्येनेभ्यः शुभद्वा अचक्रया यत्सुतया सुपर्णो हव्यम् भरन्मन वेदेवजुष्टम् भरद्यदिरतो वेविजानः पथोऽनुनामनो ज असर्जे तूयै यजौ मधुना सोम्येनोदश्रवो विविदेश्येनो अत्र प्रदीपीश्येनो सोमं भरद्दार्हाणो देवा वा अन्तिमो अपुष्पादुत्तरादाय आदाय श्येणो अपरत् सोमम् सहस्रम् अत्रापुरं च साकम् अत्रापुरन्धिरजादराधीर्मदे सोमस्य मोरा मोहरः गर्भेऽनुसन्नन्वे एषामवेदमहम् देवानाञ्जलिमानि विश्वा शतम् मा पुरायशीरक्षम् रष्येणो जवसायम् नोषम् जभाराभीमा सत्पक्षसा वीर्येणधिरजहादराङ्गतरक्षोऽशुवानः अपयच्छेणो अस्मनिलसद्योर्वियद्य दिवात ओः पुरन्धिम् सुरद्यदस्मावः क्षिपद्याम् कृशास्तामनसा पुरण्यन् पृथिप्यमिंद्र आज्युनोज भारत अंतपत्तत्र पर्णमया मसी अध श्वेत कलशंगोक्तम मघवा शुक्रमधाधु प्रयतम मध्यो अग्रमिंद्रो मद आज प्रतिधत् बध्यई शोरोमद्रितत् बध्ये पायुजातपतत्सोक्ष इन्द्रो अपो मनरे सस्रुतस्कः अहं न हि मरिणात् सप्तसिन्धो न पा वृणोदपि हि ते पखानि पायुजानि किलत्सूर्यस्येन्द्रश्चक्रम् सहसा अधिष्णुना बृहता वर्तमानम् महो द्रुहो अपविश्वायुधायि अहन्निन्द्रो असहदग्निरिन्दो पुरा दस्योन्मध्यन्दिनादधीते दुर्गे दुरोणे क्रत्वारजाताम् पुरो सहस्रा शर्वा निबर्हि विश्वस्मात्सेमथमाङ्गीन्द्रदस्योन्विषो दासे एर कृणो न प्रशस्ताः अपा आधेथामवृणतम् निशत्रो न विन्देथामपचि निम्बत्रैः एवासत्यम् मखवाना युवन्तरिन्द्रश्च आदर्द्रुतमपि हितान्यश्ना आदि चोक्षाश्चित्तदृदाना आनस्तुत उपवाजेभिते इन्द्रयाहि हरिभिर्मन्दसानः तिरश्चि नर्यस्सवना पुराण्या अङ्गोषेऽभिर्गृणानः सत्यराधाः आहिष्मायाति नर्यश्चिखित्वानुभूयमानः सोतृभिर्वयज्ञम् स्वश्वयो अभि एरुर्मन्यमानः सुश्वाणेभिर्मदति संहवीरैः श्रावये तस्य कर्णा आवाजयध्ये जुष्टामनुप्रतिशम् मन्दयध्ये ये बुद्ध्वा वृषाणो राधसेतुमिष्माङ्करम् लेन्द्र सुतीर्थाभयम् च अच्छायोगन्तानाधमानभूते इत्था व्यब्रह्मवमानम् गृणन्तम् उपपद्मनिददा शतानि वज्रबाहुः ोरा आसो मघवन्निन्द्रविप्राः वयन्ते स्यामसूरयो गृणन्ताः भेजानासो बृहद्दिवस्य रायः कायस्य दापने पुरुत्सोः न किलन्द्रदुत्तरो न ज्यायाहम् तस्य कृत्रहम् न किलेवा यथात्तम् चक्रेव वावृतुः सत्रा, चक्रे वा सत्रा महामभिश्रुतः विश्वेतनेतनात्वा देवास इन्द्रयुजुधुः यदहानक्तपातिरः यत्रोतप आदितेभ्यश्चक्रम् कुत्साय युध्यते कुशाय इन्द्रसूर्यम् यत्र देवाङ्गृहायतो विश्वाङ्ग्रयुध्यवेतय त्वमिन्द्रमनोङ्गृहन् यत्रोतमर्त्या आयतमरिणा इन्द्रसूर्यम् प्रावश्यतीभिरेतसम् किमादुतासि वृत्रहन्मखमन्वन्विमत्तमः अत्राहदानुमादिरः एतद्घेतुतवीर्या अविन्दचकर्थपौंस्यम् श्रियञ्यद्दुरहशां वधेर्दुहितरम् दिवः दिवश्चिद्घादुहितरम् महान्महीयमाना उषासमिन्द्रसम् पिणक् अपोषा अनसः सरत्सम्पिष्टादः विभ्युषे नियत्सेम् एतदस्यानश्चेतुम्पिष्टम् विपाश्या स्वसारसेम् परावताः उत सिन्धुम् विवाल्यम् वितस्थानामधिक्षणे परिष्ठा इन्द्रमायया उत शृष्णस्य कृष्णया प्रवृक्षो अभिवेदनम् पुरोयदस्य सम्पिणग उत दासम् कौलितरम् बृहतः पर्वतादधि अवाहन्निन्द्रशम्बरम् उत दासस्य अधिपञ्च प्रथीङ्व उदत्यम् पुत्रमग्रुवः परावृत्तम् श्रुतक्रतुः उक्थेष्विन्द्राभजत् उदत्या दुर्वशायतो अस्नाता राजेपतीः इन्द्रो अविद्वाम् अपारयत् उदत्या सद्य आर्याः सरयोरिन्द्रपारताः अर्णाः चित्ररथावधीः अनुद्वाजहितानयोन्धम् श्रोणम् च वृत्रहन् न तत्ते सुन्नमष्टवे शतमश्मन्मयीनाम् पुरामिन्द्रोऽस्यत गिरो दासाय दाशुषे अश्वापयदभीतये सहस्रा त्रिंशतम् मथैः यस्ता विश्वानिजिच्युषे उत नो नैयदिन्द्रियङ्गरिष्या इन्द्रपोंस्यम् हरत्यानविशिष्टरामिनत् वामं वामन्त आदुरे देवो ददात्तर्यमा वामम् पूषा वामम् भगो वामम् देवः कया आनश्चित्र आपुवदूते सदा वृथः कस्त्वा आसत्यो मदा आनाम् दृह्णाचि दारुजेबसो अभिषुणः सखेये नाम पितायलितॄणाम् शतम्भवा स्योतिभिः अभिनामवृत्स्वचक्रन्न वृत्तमर्वतः लेद्भिश्चर्षणीनाम् प्रवदाहि क्रतो नामाः नामाहा अभक्षिसूर्ये स चाः संयत्त इन्द्रमन्यवः सञ्चक्राणि दधन्विरे अथत्वे अथ सूर्ये उत स्माहि दाता रमविरीघयुम् उत स्माः सद्य इत्परिशमानाय सुन्दते पुरोचिन्मसेवसो न हि स्मा ते शतञ्चलराधोपरन्त आपुराः न च्यौत्नानि करिष्यतः अस्मावन्तु ते शरमस्मान्सहस्रभूतयाः अस्मान्विश्वाः अभिष्टयः अस्माङ्हावृणीकृतसख्याय स्वस्तये महोराजेति वित्मते अस्माङ्गविड्ढि विश्वहेन्द्रराजापरेणसा अस्मान्विश्वाभिरोतिभिः अस्मभ्यन्ताङ्गपा पृथिम् रजाङ्गस्तेवगोमतः नवाभिरिन्द्रोतिभिः अस्माकम् नवा धृष्णजारथोऽद्युमाङ्ग्रा अस्मा नच्युतः द्रव्युरश्वयुः यते अस्माकमुत्तमम् गृधिश्रवो देवेषु सूर्य वर्षिष्ठन्द्यामि गोपरि आतो न इन्द्रवृत्रहन्नस्माकमर्धमागहि महान्महीभिरोदिभिः भ्रमिश्चिद्घासितो तु दिराचित्रचित्रिणीष्वा चित्रम् कृणो स्योतये दभ्रेभिश्चिच्छशीयाम् संहम् सिंव्राधन्तमोजसा सखिभिर्ये त्वे सचाः वयमिन्द्रत्वे सचाः स्वाङितु आस्पांग, तवा सरश्चित्राभिरद्रिवो न पद्याभिरूतिभिः अनाः धृष्टाभिरागहि भूया मोषद्वावतस्य खा आय इन्द्रगोमतः चुजोपाजा आय विश्वजे पङ्गे ईशिष इन्द्रवाजस्य गोमतः स नो यन्धिमहेमिषम् नत्वा आवलन्ते अन्यथा यद्दित्ससि स्तुतो मघम् सोतृभ्य इन्द्रगर्वणः अभित्वा गोतमा गिरानोषप्रदापने इन्द्रवाजा आजघृष्वये प्रते एवोचामवीर्या आयामन्दसान आरुदः पुरोदासीरभीत्या ता ते गृणन्ति वेधसो जानि चकर्थपोंस्याः सुतेऽस्मिन्द्रगिर्वणः अवि हे मृधन्त गोतमा इन्द्र ते स्तोमवाहसः ऐषुधा वीरपद्यशाः यच्चिद्धिषश्वधामसेन्द्रसाधारणस्तम् तन्ताभयम् भवामहे अर्वाचीनोभसो ोलाशन्दनोभसो जोषयासे गिरस्तनः सहस्रम् व्यतेना युक्तानामिन्द्रमीमहे शतम् सोमस्य कार्याः सहस्रा ते शता वयङ्गवावाच्याः वयामसि अस्मत्रा राध एतु दशते कलशाः नाम् हिरण्यानामधीमहि भोरिदा असि वृत्रहन्न भोरिदा भोरिदेहि भूरिहे निन्द्रदित्ससि भूरिदाह्यसि श्रुतः पुरुत्राशूरवृत्रहन्न आनोभयस्वराधसि प्रते बभ्रो विदक्षणशंसामिघोषणोऽनपात माभ्याङ्गा अनुशिश्रथा कलीलके मविद्रदे न वे द्रुपदे अर्भके बभ्रोयामे शु शोभेते अरम् अनुश्रयाम्णे रमनुश्रयाम्णे इति तृतीयाष्टके